संभाषणसदेशन्युरी ट्वेंटी 2019 मासस्य से मसपत्रिनी कर्मसुकौशल कथाकार अमृतपुत्र कस्ंशि प्रातः काले काचि महानोका बहून यात्रिण स्वीकृत्य प्रस्थिता मध्याह एक नौकेद्रम प्राप्य एक महानोका अकस्मा स्थगिता विचि ध्वनि नौकाचालकाः सर्वे तन्त्रज्ञाः च प्रयत्नम् आरब्धवन्तः कुत्र समस्या स्यात् इति ज्ञातुम् एकस्मिन् यन्त्रे दोषः उत्पन्नः इति तैः ज्ञातं किन्तु दोषः कथं समीकरणीयः इति न केनापि अवगतम् सर्वे तन्त्रज्ञाः असहायकतां दर्शितवन्तः तावता व्यवस्थापकेन ज्ञातं यत् नगरे कोपि यन्त्रविशेषज्ञः अस्ति सः तम् आह्वातुं जनं प्रेषितवान् अचरातेव एव यन्त्रज्ञः आगतः सः कश्चन वृद्धः किन्तु अनुभवी सः यन्त्रसमीपं गतः तं वृद्धं दृष्ट्वा तिरस्कारभावनया एव तं यन्त्रप्रकोष्ठं नीतवन्तः अभियन्तारः वृद्धः यन्त्रज्ञः यन्त्राणां समग्रम् अवलोकनं कृतवान् कांश्चन प्रश्नान् पृष्टवान् च एषः वृद्धः किं वा कुर्यात् एतावन्तः अभियन्तारः वयं किमपि कर्तुं न शक्तवन्तः इत्यादयः भावाः अभियन्तॄणां मुखेषु आसन् तावता महानौकायाः स्थगनस्य अनन्तरं घण्टात्रयम् अतीतम् आसीत् अल्पेन कालेन सर्वम् अवलोक्य दोषं ज्ञातवान् इव सः वृद्धः स्वस्यूतात् एकं लघुमुद्गरं निष्कास्य तेन यन्त्रस्य एकस्मिन् भागे शक्त्या प्रहृतवान् अहो आश्चर्यं सर्वैः यन्त्रैः कार्यम् आरब्धं यथापूर्वं सर्वे मुदिताः विस्मिताः च सन्तः परस्परं अभिनन्दितवन्तः विशेषज्ञाय कृतज्ञतां समर्प्य पृष्टवान् व्यवस्थापकः कति रूप्यकाणि दातव्यानि एतदर्थम् इति विशेषज्ञेन उक्तम् दशसहस्रं रूप्यकाणि इति तावद् देयं किं भवान् तु लघुमुद्गरेण एकं प्रहारं कृतवान् तावदेव तदर्थम् एतावन्ति रूप्यकाणि देयानि किम् इति सकोपम् उक्तवान् व्यवस्थापकः वस्तुतः मुद्गरेण ताडनार्थं देयं भवति रूप्यकत्रयमेव विशेषज्ञः अवदत् किन्तु भवता इदानीमेव उक्तम् दशसहस्रं रूप्यकाणि देयानि इति साश्चर्यं पृष्टवान् व्यवस्थापकः आम मुद्गरेण ताडनार्थं देयं भवति रूप्यकत्रयमेव किन्तु कुत्र ताडनीयम् इति निर्णयाय यत् अपेक्षितं तस्य निमित्तं देयानि भवन्ति नैन् तौसण्ड् नैन् अवदत् विशेषज्ञः कौशलस्य मूल्यं भवति अत्यधिकम् इति ज्ञातवान् व्यवस्थापकः तस्मै विशेषज्ञाय दशसहस्रं रूप्यकाणि दत्वा तं प्रेषितवान् कथा समाप्ता